अथ च दुर्धस्कन्दः रुचिर्विवाह्यविधिवदाहूदि मनुकन्यकां यज्ञमिन्द्रं हरे रंश्यं जनयामासधर्मदः अनसूयां देवहूधे कन्यामस्त्रिरवाप्य चन्द्रं दुर्वाससं दत्त योगिनं चाप्यजीजनत मोर्त्याम् दक्षस्य कन्यायां नरनारायणा वृषी धर्मां श्येन पृथग् जातौ ते पादे विजितेन्द्रियौ दाक्षायणी सदी शम्भुमनुवृत्ता पुरापदिम् अमुचन्निजं देहसं पित्रा द्वेषाद्विमानिदा पुनः सा तपसा परमेश्वरं सर्वेश्वरी सर्वजगत् समाराध्या प्रकाशदे दक्ष को वादीश्वरेण चिन्नयज्ञो मृतः पुनः ईश्वरो जीवितस्त्यभेदः सुखमगात् परम् पुतानपादो राजासीन्मनुपुत्रस्तु धार्मिकः तस्य पत्नीद्वये ज्येष्ठपत्न्यां जादो ध्रुवो महान् सपत्नी माद्र मातृवाग्विद्धो लब्ध्वा माधुरनुग्रहं निर्गदो ध्रुवः दृष्टेन नारदेनाध पधि प्रीत्याभिनन्दितः उपदिष्टमहामन्त्रो यमुनातीरमागमद ज्ञात्वा हरिं पञ्चवर्षो जितान्धकरणेन्द्रियः पञ्चमासात् परं लब्ध्वानुग्रह पुरमागमद प्तराज्यो जिद मित्रोजिद मृत्युस्सु दुर्लभम् अवापवैष्णवं दौष्ट्येन निर्विण्णो निरगात्पुराद लब्ध राज्ञस्त्वधर्मात्मा हदो वेनो महर्षिभिः रक्षणार्थं च लोकस्य महर्षीणां तपो बलाद् वेनबाहो हरिरंश पृथुराविरभून्महान् ब्रह्मण्यो भगवद्भक्तो योगैश्वर्यं श्रुधपृथुः प्रजाभ्यस्वशे भूमिं कृत्वा भोगानदापयद अपराधिनमाश्वास्य नदं यज्ञे पुरन्दरं नारायणानुग्रहेण श्रद्धया पोषयत् प्रजाः धर्मान् प्रदर्श्य स्वीयासु प्रजासु ब्राह्मणैस्तुतः शनकादिप्रसादेन लब्धज्ञानोऽभ्यगाधरिं प्राचीनबर्हिस्तन्नप्ता कर्मप्रवणधीस्तदा प्रचेतसस्तस्य पुत्रा दशते पुर्महार्णवे तदा तदाचीन बर्स्तु नारदेन नमुख प्रबोधित शास्त्रसं पुरचन कदाचलाद जीव राज इंद्रिया चेवकाव पुरा देह प्राणो हि पुपाल बुद्धिस्त्री तन्मयो जीवो विस्मृत्य सुहृदं हरिं द्वारै रक्ष्यादिभिर्गत्वा भुङ्क्ते दुविषयान् बहिः अहोरात्रैस्तु गन्धर्वैर्जरया कालकन्यया व्याधिभिर्यवनैर् राज्ञा मृत्युना च प्रपीडितः पुरं वीक्ष्याग्निना दग्धं चिन्तयं स्त्रियमेव सः पुरपालस्य निष्क्राममनु निष्क्रम्य गच्छति स्त्रीध्यानादन्तकाले दुविदर्भधनया भवद संसारगतिरेषैव विमोक्षगदिरुच्यदे पाण्ड्यं प्राप्य भर्तृ शुश्रूषया चिराद सदाचार्योपदेशेन मुक्ता प्रापरं एवं स्वधर्मनिष्ठानां भगवत्कृपया परं ज्ञानमाविर्भवेत्तेन बन्धमुक्तिर्भवेद्ध्रुवम् इति शास्त्ररहस्यं तु कथा व्याजेन दर्शितम् बोधिदो बोधितो नारदेनैवं राजा मुक्तो बभूवः प्रचेतसस्तपस्यन्दो भगवत्प्रेरिदामुदा वाक्षी मुदुह्याप्सरसीं दक्षं पुत्रमजीजनद पुत्रं राज्येऽभिषिच्याधत्यक्त सङ्गाजिदेन्द्रियः नारदानुग्रहेणैव मैत्रे येणोपवर्णितां कथां श्रुत्वा भगवतो मैत्रे येणोपवर्णितां तृप्तकृतार्थो विदुरो हस्तिना पुरमागमद इति चतुर्धस्कन्धः